मि॒त्रो जनान्यातय॑ति ब्रुवा॑णो मि॒त्रो दाधारपृथि॒वीमु॒तद्याम् मित्रः कृष्टिरनिमिषाभि चष्टे मित्राय हव्यङ्घृ॒तवाजुहोता मित्रो जना॒ यातयति ब्रुवाणो मित्रो दाधार दाधारपृथि॒वीमु॒तद्याम् मि॒त्रः कृष्टिरनिमिषाभि चष्टे मित्राय हव्यङ्घृ॒तवाजुहोता मित्रो जनान्यातयति ब्रुवाणो मि ो दाधार पृथि॒वीमु॒तद्याम् मि॒त्रः कृ॒ष्टीरनिमिषाभि च॒ष्टे मि॒त्राय हव्यङ्घृ॒तवाजुहोता